थाष्टषष्टितमः सर्गः कुम्भकर्णम् हतम् दृष्ट्वा महात्मना राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् कालकर्मणा विद्राव्यवानरीम् सेनाम् भक्षयित्वा च वानरान् प्रतपित्वा मुहूर्तम् तु प्रशान्तो राम कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् निकर्तना सा कर्णेण विक्षरद्रुधिरेण च ऋद्ध्वा द्वारम् शरीरेण लङ्कायाः पर्वतोपमः कुम्भकर्णस्तवभ्राता काकुत्स्थशरपीडितः अगण्डभूतो विवृतो दावदग्ध इव महाबलम् रावणः शोकसन्तप्तो मुमोह च पपात च पितृव्यम् निहतम् कुम्भकर्णवधा दीनो विललापाकुलेन्द्रियः हावीररिपुदर्पघ्नकुम्भकर्णमहाबला त्वम् माम् विहाय वैदैव ज्ञातोऽसि यमसादनम् मम शल्यमनुधृत्य बान्धवानाम् महाबला शत्रुसैन्यम् प्रताप्यैकः त्वमाम् सन्त्यज्य गच्छसि इदानीम् खल्वहम् नास्मि यस्य मे पतितो भुजः दक्षिणोऽयम् समाश्रित्य न बिभेमि सुरासुरात् कथमेवंविधो वीरो देवदानवदर्पः कालाग्निप्रतिमोह्यद्य राघवेणरणे हतः यस्य ते वज्रनिष्पेशो न कुर्याद्व्यसनम् सदा स कथम् रामबाणार्तः महीतले एते देवगणाः सार्धमृषिभिर्गगणे स्थिताः निहतम् त्वाम् रणे दृष्ट्वा निनदन्ति प्रहरिषिताः ध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः दुर्गाणि लङ्का द्वाराणि सर्वशः राज्येन नास्ति मे कार्यम् किम् करिष्यामि कुम्भकर्णविहीनस्य जीविते नास्ति मे यद्यहम् भ्रातृहन्तारम् न हन्मि युधिराघवम् ननुमे मे श्रेयो न चेदम् व्यर्थजीवितम् अद्यैव तम् गमिष्यामि देशम् यत्रानुजो मम न हि भ्रातृम् समुत्सृज्य क्षणम् जीवितुमुत्सहे देवाहिमाम् दृष्ट्वा पूर्वापकारिणम् कथमिन्द्रम् जयिष्यामि कुम्भकर्णहते तदिदम् मामनुप्राप्तम् विभीषणवचः शुभम् यतज्ञानान्मया तस्य न गृहीतम् महात्मनः विभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः विनाशोऽयम् समुत्पन्नो माम् व्रीडयति दारुणः तस्यायम् कर्मणः प्राप्तो विपाको मम शोकदः यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् न्यपतदपि दशाननो भृशार्तस्तमनुजमिन्दरि पुंहतम् विदित्वा इत्यार्षे आदिकाव्ये